अत तैत्त्रिय आरण्यः तृतीयप्रश्नप्रारम्भः ओच्छञ्जोरावृणीमहे गातुम् यज्ञाय दातुम् यज्ञपतगे दातु दैवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिदातुभेषजम् शन्नो अस्तुभ्युपदे शम् चतुष्पदे ओम् शान्तिः शान्तिः शान्तिः चित्तिस्रुक् चित्तमाज्यम् वाग्वेदिः आधीतम्बरिभिः हेतोनिः विज्ञातमग्निः वापतिर्होता मन उपवर्ता प्राणो हविः सामाध्वर्युः वाचस्पते विधेनामन् विधे मते नाम यधेस्त्वमस्माकम् नाम वाचस्पतिः सोमम् पिबतु आस्मासु निर्णन्धात् स्वाहा पृथिवी होदा द्यौरध्वर्योः रुद्रोऽग्नेय बृहस्पतिरुपवक्ता वाचस्पते वाचो वीर्येण सम्भृततमेनायक्ष्यसे यजमानाय वार्यम् आसु वाचस्पतिः सोमम् पिबति जनरीन्द्रमिन्द्रियाय स्वाहा अग्निर्होताः अश्विनाध्वर्यो त्वष्टाग्नेत् मित्र उपवर्ता सोमः सोमस्य पुरोगाः शुक्रशुक्रस्य पुरोगाः श्रातास्त इन्द्रसोमाः वातापेर्हवनश्रुत स्वाहा पाचम् प्राणः द्याम् पृष्ठम् अन्तरिक्षमात्मा अङ्गैर्यज्ञम् पृथिवीगुम् शरीरैः वाचस्पतेच्छिद्रया वाचा अच्छिद्रया जुह्वा दिविदे वावृथगुम्भोऽत्रा मेरयस्व स्वाहा महाहविरुहोताः सत्यः विरद्धर्जुः अच्युतपाचा अच्युतमना उपभक्ता अनाधिष्यश्च प्रतिभृष्यश्च यज्ञस्याभिघरौ अजास्य उद्गाता वाचस्पते हृद्विधेनामन् विधे मते नाम युधे स्वमस्माकम् नाम वाचस्पतिः सोममपादे मादयव्यस्तम् दुच्छेदिमामनुष्यः नमो दिवे नमः पृथिव्यै स्वाहा ग्भोता दीक्षावत्नी पातोभर्युः आपोऽभिगरः मनोहरिः तपसि जुहोमि भोर्भुवः सुवः ब्रह्मस्व जम्भो ब्रह्मणेश्वजम्भुभे स्वाहा ब्राह्मण एकहोता स यज्ञः समे ददातु प्रदाम्बशोऽम् पुष्टिम् यशः यज्ञश्च मे अग्निर्द्विहोता होता. भर्ता समेद ददातु प्रजाम् पशोम् पुष्टिं यशः भर्ता च मे होता पृथिवी त्रिहोता सप्रतिष्ठा समे ददातु प्रजाम् पशोम् पुष्टिं यशः वृष्ठा च मे भूयात् होता चतुर्होता स ददातु प्रजाम् पशोम् पुष्टिम् यशः इष्ठाश्च मे भूयात् वायुः पञ्चहोता स प्राणः समे ददातु प्रजाम् पशोन् पुष्टिम् दशः प्राणश्च मे भूयात् चन्द्रमा षड्ढोता स ऋतोन् कल्पयाति स मे ददातु प्रजाम् प्राणः समे ददातु प्रजाम् पशोन्पुष्टिम् जशः प्राणस्य च मे प्राणो भूयात् यौरष्टहोता सोऽनाधृष्यः समे ददातु प्रजाम् पशोऽन् पुष्टिम् जशः अनाधृष्यश्च भूयासम् आदित्योऽनवहोता स तेजस्वी समे ददातु प्रजाम् पशोन्पुष्टिञ्जशः तेजस्वी च भूयासम् प्रजापतिर्दश होता स इदगुम् सर्वम् स मे ददातु प्रजाम् पुशोन् पुष्पिञ्जसः सर्वञ्च मे भूयात् अग्निर्यजुर्भिः सवितास्तोमेनेः अंगिरसो उक्सामदयेः निवरुणा वाशिषा अङ्ग्यरसोऽधिष्णुजैरग्निभिः मुरुदः सदोहविर्धानाभ्याम् ओषधयो दर्हिषा अदितिर्वेद्या सोमो दीक्षया त्वष्टेध्मेन विष्णुर्यज्ञेन असव आद्येन देवा ऊर्जा पूषास्वगाकारेण बृहस्पतिः पुरोधया प्रजापतिरुद्गीचेन अन्तरिक्षम् पवित्रेण वायुः पात्रैः अहगः श्रद्धया सेनेन्द्रस्य धेना बृहस्पतेः अध्यातोष्णः बाघ्वायोः दीक्षासोमस्य पृथिव्यग्नेः वसूनाङ्गायत्री रुद्राणाम् द्रष्टुक् आदित्यानाम् जगति विष्णोरनष्टुक् वरुणस्य विराट् यज्ञस्य पङ्क्तिः प्रजापतेरनुमतिः मित्रस्य श्रद्धा सरितुः प्रसूतिः सौर्यस्य मरीचिः चन्द्रमसौरोहिणी कृषीणामरुन्धती पर्जन्यस्य विद्युत् चतस्रो दिशः चतस्रोवान्दरदिशाः अहश्चरात्रिश्च कृषिश्च वृष्टिश्च त्रिषिश्चापचितिश्च आपश्चौषधयश्च ओर्क्षसो नृता च देवानाम् पत्नजः देवस्य तासवितः प्रसवे अश्विनार्बाहभ्याम् तोष्णाहस्ताभ्याम् प्रतिगृह्णामि राजा आत्त्वा पर्णो नयतु देवि दक्षिणे अग्नजे हिरण्यम् तेनामृतत्वमस्याम् प्रयो कस्मा अदात् कामः दा, कामाय कामो दाता कामः प्रतिगृहीत कामगंसमुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामे तत्ते एषा ते कामदक्षिणा वृत्तानस्त्वा आङ्गेरसः प्रतिगृह्णातु सोमायवासः रुद्राजगाम् करुणायाश्वम् वृजापतये पुरुषम् अनवेतत्वम् तष्ट्रेधाम् तोष्णेविम् निर्वृत्या अश्वतरगर्दभौ हिमवतो हस्तिनम् गन्धर्वाप्सराभ्यस्रगलङ्करणे विश्वेभ्यो देवेभ्यो धान्यम् वाचेऽन्नम् ब्रह्मण ओदनम् समुद्राजापः उत्तानाजाङ्गे रसा वैश्वानराजरथम् वैश्वानरः प्रत्नथा नाकमारुहद् दिवः पृष्ठम् राजात्वा वर्णो नयतु देवि दक्षिणे वैश्वानराजरथम् मजो मह्यमस्तु प्रतिगृहीत्रे कैदम् कस्मा अदात् कामः कामाय कामा कामो दाता कामः प्रतिगृहीता कामकम् समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामी तत्ते एषा ते कामदक्षिणा तानस्त्वाङ्गे रसः प्रतिगृह्णातु सुवर्णम् घर्मम् परिभेदभेनम् इन्द्रस्यात्मानन्दशधाचरन्तम् अन्तः समुद्रे मनसाचरन्तम् ब्रह्मान्वविन्दग्दशहोतारमर्णे अन्तः प्रविष्टः शास्ता जनानाम् एकः सन् बहुधा विचारः शतकुम् शुक्राणि यत्रैकम् भवन्ति सर्वे वेदा यत्रैकम् सर्वे होतारो यत्रैकम् भवन्ति समानसेन आत्मा जनानाम् अन्तः प्रविष्टः शास्ता जनानागुम् सर्वा आत्मा सर्वाः प्रजायत्रैकम् भवन्ति चतुर्होतारो यत्र सम्पदम् गच्छन्ति देवैः समानसेन आत्मा जनानाम् ब्रह्मेन्द्रमग्निम् जगतः प्रतिष्ठाम् दिव आत्मानगुम् सभितारम् बृहस्पतिम् चतुर्होतारम् प्रदिशोऽनुकृतम् वाचो वीर्यन्तपसान्वविन्दत् वा अन्तः प्रविष्टम् कर्तारमेतम् पुष्टारकुम् रूपाणि विकुर्वन्तम् विपश्चिम् मृतस्य प्राणं यज्ञमेतम् चतुर्होतृणामात्मानम् कपयोनुचित्युः अन्तः प्रविष्टम् कर्तारमेतम् देवानाम् बन्धुनिहितम् गुहासो अमृतेन क्लृप्तम् यज्ञमेतम् चतुर्होतृणामात्मानम् कवजोऽनुचित्युः स तन्नियुतः परिवेद विश्वा विश्ववारः विश्वमिदम् वृणाति इन्द्रस्यात्मान हितः पञ्च होता अमृतम् देवानामायुः सवितारमेतम् वाजोरात्मानम् कवचोऽनुचित्युः रश्मिकम् रश्मीनाम् मध्येतपन्तम् व्रतस्य पदे कवचो निपान्ति या अण्डकोशे भुवनम् बिभर्ति अनिर्भिन्नः सन्नद्धोकान् विचष्टे यस्याण्डकोषकम् सुष्ममाहुः प्राणमुल्बम् तेन गप्तो मृगेनाहमस्मि सुवर्णम् रजसा परिवृतम् देवानाम् वसुधानीम् विराजम् अमृतस्य पूर्णान्तामुकलाम् विचक्षते पादकुम् षड्भो दुर्नखिला विवित्से ते नर्तवः पञ्चथोतगृप्ताः कृतवा षड्ढा मनसोदग्रप्ताः तघुम् षड्भोतारमृतभिः कल्पमानम् ऋतस्य पदे कवयो निपान्ति कर्तारमेतम् अन्तश्चन्द्रमसि मनसाचरन्तम् सहैव सन्तम् न विजानन्ति देवाः इन्द्रस्यात्मानघुंश तथाचरन्तम् इन्द्रो जगतो यईशे सप्तधा विकृप्तः परेण तन्तम् परिशिक्ष्यमानम् अन्तरादित्ये मनसाचरन्तम् देवानागम् हृदयम् ब्रह्मैतद्ब्रह्मण उज्जभार अर्कर्गश्चातन्तकम् शरीरस्य मध्ये आयस्मिन् सप्तभैरवः मेहन्ति बहुलाघिश्रियम् बह्वश्वामिन्द्रगोमतीम् अच्युताम् बहुलाघिश्रियम् स हरिर्वसुवित्तमः ऐरविन्द्राय पिन्वते अच्युताम् बहुलाघिश्रियम् मह्यमिन्द्रो नियच्छत् शतगुम्शता अस्य युक्ता हरिणा अर्वाङ्गाजातु वसुभे रश्मिरिन्द्रः प्रमगम् हबाणो बहुलागश्रिजम् रश्मिरिन्द्रस्य पितामेन यच्छत् घृतम् तेजो मधुमधिन्द्रियम् वै यजमग्नर्दधातु हरिः पतङ्गः पटरे सुपर्णः जिविक्षयो नभसाय एति स न इन्द्रः पञ्चारञ्चक्रम् परिवर्तते पृथु हिरण्य ज्योतिः शरीरस्य मध्ये अजस्रम् ज्योतिर्नभसा सर्पदेति स न इन्द्रः कामवरम् ददातु सप्त युञ्जन्ति रथमेकचक्रम् एतो अश्वो वहति सप्त नामा ऋणाभिचक्रमजरमनर्मम् येनेमाविश्वाभुवनानितस्थुः भद्रम् पश्यन्त उपसेदुरग्रे तपो देक्षा वृषयः सुपर्विदः ततः क्षत्रम् वलमोजश्च दातम् तदस्मै देवा अभिसन्नमन्त श्वेतकम् रश्मिम् वा भुज्यमानम् अपान् नेतारम् भुवनस्य गोपा इन्द्र निचित्यः परमेऽ्योमन् रोहिणेः पिङ्गलादेकरूपाः क्षरन्तेः पिङ्गलादेकरूपाः शतकुंसहस्राणि प्रयुतानि नाप्यानाम् अयम् यः श्वेतोरश्मिः परिसर्वमिदम् जगत् प्रजाम् पशून्धराणि अस्माकम् ददातु श्वेतोरश्मिः परिसर्वम् बभूव सुवन्मह्यम् पशून् विश्वरोपान् पतङ्गमक्तमसुरस्य मायदा हृदा पश्यन्ति मनसा वनेषिणः समुद्रे मन्दः कवचो विचक्षते मरीचीनाम् पदमिच्छम् विवेधसः पतङ्गोवाचम् मनसा विभर्ति तांगं सर्वोपदद्गर्भे अन्तः ताम् द्योतमानाग्स्वर्यम् मनीषाम् हृदस्य पदे कवयो निपान्ति ये द्राम्याः पशवो अग्निस्तागम् अग्रे प्रमुमोक्तु देवः प्रजापतिः प्रजया संविधानः नेतज्ञस्तुके स्तुके युवमस्मासु नियच्छतम् प्रयज्ञपतिम् निर ये ग्राम्याः पशवो विश्वरूपाः निरूपाः सन्तो बहुधैकरूपाः तेषागम् सप्तानामिहरन्तिरस्तु राजस्पोषाय सुप्रजास्ताय सुवीर्जाय य पशव पशवो विश्वरूपाः विरूपाः सन्तो बहुधैकरूपाः वाजस्तादम् अग्रे प्रमोऽक्तु देवः प्रजापतिः प्रजजा संविदानः इराजे सप्तम् घृतवच्चराचरम् देवा अन्वविन्दन्गुहाहितम् य आरण्याः पशवो विश्वरूपाः विरूपाः सन्तो बहुधैकरूपाः तेषाकम् सप्तानामिहरम् विरस्तु राजस्पोषाय सुप्रजास्त्वाय सुवीर्याय सहस्रशीर्षः पुरुषः सहस्राक्षः सहस्रपात् स भोमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाम्बुरम् पुरुष एतावानस्य महिमा अतो ज्याजागिश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदैपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् यक्रामत् शासनादशमे अभि तस्मा जिराडजायत विराजोऽधिपूरुषः स जातो अत्यरुच्यत पश्चाद्भूमिमथो गुरः यत्पुरुषेण हमिषाः देवायज्ञमतन्वत वसन्तो अस्यासीडाज्यम् ग्रीष्म युध्म शरद्धविः सप्तास्यासम्परिधयः त्रिः सप्तसमिढः कृताः देवा यद्यज्ञम् तन्पानाः अबद्धन् पुरुषम् वशम् तञ यज्ञम् बर्हि श प्रोक्षन् तेन देवा अयजन्त सालश्च तस्माद तस्माद तस्माद। ये तस्माद्यज्ञात् सर्वहृदः सम्भृतम् पृषदाज्यम् अशोकिस्तादिश्चक्रे वायव्याय आरण्यान्द्राम्याश्चये तस्माद्यज्ञात् सर्वहृदः ऋषः सामानजज्ञिरे छन्दागुंसिजज्ञिरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भजा दतः गादोहजज्ञरे तस्मात् तस्मात् जाता अजाभयः यत्पुरुषम् व्यदधुः कतिथाव्यकल्पयन् मुखम् किमस्य कौ बाहो का पादा उच्येते ब्राह्मणास्य मुखमासीत् बाहो राजन्यः कृतः तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वादिरजायत नाग्भ्या आसीदन्तरिक्षम् शीर्ष्णाद्योश्रमवर्तत पद्भ्याम्भोभिर्दिशस्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रोपाणि विचित्यधीरः नामानि कृत्वाभिवदनयदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान्प्रलिशश्चतस्रः तमेवम् विद्वानमृग इह भवति नान्यः पन्था अजनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यः सम्भोदः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तत्पुरुषस्य विश्वमाजा नमग्रे वेदाहमेकम् पुरुषम् महान्तम् आदित्यवर्णन्तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था युज्यते जनाय प्रजापतिस्तरदिगर्धे अनन्तः प्रजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति जानिम् मरीचीनाम् यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वजो देवेभ्यो जातः नमो रुचाज ब्राह्मजे रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च लक्ष्मीश्च पत्न्योः अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौयात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण भर्ता सम्भ्रियमाणोऽपि भर्ति एको देवो बहुधा निविष्टः यदा भारम् तन्द्रयते स भर्तुम् निधाय भारम् पुनरस्तमेति तमेव मृत्युममृतम् तमाहुः तम् भर्तारन्तमुखोक्तारमाहुः सभृतो भ्रियमाणो बिभर्ति य एनम् वेदसत्येन भर्तुम् सद्यो जातमुत जहात्येषः उतो जरन्त न जहात्येकम् उतो बहोनेकमहर्जहार अतन्द्रो देवः सदमेव प्रार्थः यस्तद्वेदयत रमते तस्मिन्नुतजीर्णेष जाने नैनम् जहात्यहस्सु पूर्वेषु त्वामाप अनुसर्वास्करन्ति जानतीः त्वत्सम्पयसा पुनाः त्वमग्निगुम् हव्यवाहकम् समिन्त्से त्वम् भर्ता मातरिष्वाः सोमः तव देवाः पमायन्ति सर्वे त्वमेकोऽसि वहो ननु प्रविष्टः नमस्ते अस्तु सुहवो मजेधि नमो वामस्तु शृणुतम् हवम् मे प्राणापानाभुम् सञ्चरन्तौ वयामि वाम् ब्रह्मणाथोत्तमेतम् लो माम् देष्टितम् जहितम् युवाना संविधानौ जहितम् अमुष्यासु नामा तम् मे देवा ब्रह्मणा संविधानौ रथाज दत्तम् तमहगुम्हनामि असज्जानसत आबभूव यञ्जम् जजानस उगोप अस्य यदा भारम् तन्द्रियते स भर्तुम् परास्य भारम् पुनरस्तमेति तद्वये त्वम् प्राणो अभवः महान् भोगः प्रजापतेः भुजः यद्देवान् प्राणजो नव हरिगम् हरन्तमनुजन्ति देवाः विश्वस्येशानम् वृषभं वतीनाम् ब्रह्मसरोपमरमेदमाघात् अजनम् मा विरधेर्विक्रमस्व मा चिदा मृत्यो मा वधीः मा मे बलम् विगृहो सद्यश्च कमानाय प्रवेपानाय मृत्यवेः प्रास्मा आशा अशृण्वन् कामेन जनयन् पुनः कामेन मे काम आगात् हृदयाद्धृदयम् मृत्योः यदमीषा मदः प्रियाम् तदैतोपमामभि परम् मृत्यो अनुपरे हि पन्था यस्ते स्व इतरो देवजानात् चक्षुष्मते शृण्वते ते ब्रवीनि मानः प्रजागुम्ली ऋषो मातवीरान् प्रपोर्व्यम् मनसा वन्दमानः नाधमानो वृषभञ्चर्षणीनाम् यः प्रजाना मे कराण्मानुषीणाम् मृत्युङ्गजे प्रथमजामृतस्य तरणिर्विश्वदर्शतो ज्योतिष्कृतसिसोर्ज विश्वमाभासिरोचनम् यामभिहेवोऽसि सौर्जायत्वाभ्राजस्वत एष तेजो निःसौर्यायत्वाभ्राजस्वते आप्याजस्वमजिन्तमसोमविश्वाभिरोदिभिः भवानः स प्रथस्तमः यीजुष्टेजे पूर्वतरामपश्यम् युच्छन्ति मुषसम्मर्त्या सह अस्माभिरो न प्रतिचक्ष्या भोदो तेजन्ति ये अपरेषु पश्यान् ज्योतिष्पतेन् ता सा दयामि ज्योतिष्कृतं ता सादयामि ज्योतिर्विदं ता सा दमि भास्पतें पा सादयामि ज्वलन्तेन् त्वा सा दयामि मल्मला भवन्त्यें Vyasa jasthaha Vyasa jasthaha Zayyasa jasthaha Udhyasa jasthaha Vyasa jasthaha Shuchesthaha Shokalasthaha Dapyatthi isthaha Dapatisthaha Brahma Hadya jasthaha Sarvasma isthaha चित्तकम् सन्तानेन भवम् चक्रा रुद्रम् तनिम् प्रापशुभतिग्रस्थोल हृदयेनाज्ञकम् हृदयेन रुद्रम् लोहितेन सर्वम् मतस्माभ्याम् महादेवमन्तः पार्श्वे नोषष्ठहनगम् शिङ्गी निकोश्याभ्याम् तर्क्षञ्यो रावृणेमहे गातुम् यज्ञाय गातुम् स्वस्तिरस्तु नः स्वस्त्यर्मानुषेभ्यः ऊर्ध्वम् जिगातुभेषजम् षण्णा अस्तु द्विपदे शञ्चतुष्पदे ओम् शान्ति द्ःशाम् तिःशान्तिः इति तैत्त्रिय आरण्यः